अधाष्टाधिकशततमः सर्गः आश्वासयन्तम् भरतम् जाबालिर्ब्राह्मणोत्तमः उवाच रामम् धर्मज्ञम् धर्मापेतमिदम् वचः साधुराघवमाभूत्ते बुद्धिरेवम् निरर्थिका प्राकृतस्य नरस्येव ह्यार्यबुद्धेस्तपस्विनः कः कस्य पुरुषो बन्धुः किमाप्यङ्कस्य केनचित् एको हि जायते जन्तुरेक एव विनश्यति तस्मान्माता पिता चेति रामसज्जेतयो नरः उन्मत्त इव सज्ञेयो नास्ति कश्चिद्धि कस्यचित् यथा ग्रामान्तरम् गच्छन्नरः कश्चिद् बहिर्वसेत् उत्सृज्यजतमावासम् प्रतिष्ठेत परेहणी एवमेव मनुष्याणाम् पिता माता गृहम् वसु आवासमात्रम् काकुत्स्थसज्जम् ते नात्र सज्जनाः पित्र्यम् राज्यम् समुत्सृज्य सनार्हसि नरोत्तमा आस्थातुम् का पथम् दुःखम् विषमम् बहुकण्टकम् समृद्धायामयोध्यायामात्मानमभिषेचय एकवेणीधराहित्वा नगरी सम्प्रतीक्षते राजभोगा ननुभवन्महार्हान् पार्थिवात्मजा विहरत्वमयोध्यायाम् यथा शक्रस्त्रिविष्टवे न ते च कश्चन अन्यो राजा त्वमन्यस्तु तस्मात् कुरु यदुच्यते बीजमात्रम् पिता शोणितमेव च संयुक्तमृतमन्मात्रापुरुषस्येह जन्म तत् गतः स नृपतिस्तत्र गन्तव्यम् यत्र तेन वै प्रवृत्तिरेषा भूतानाम् त्वम् तु मिथ्या विहन्यसे अर्थधर्मपराये ये तां स्ताञ्छोचामिनेतरा ते हि दुःखमिह प्राप्य प्रेत्यलेभिरे अष्टकापितृदेवत्यमित्ययम् प्रसृतो जनः अन्नस्योपद्रवम् पश्य मृतो हि कमशिष्यति यदि भुक्तमिहान्येन देहमन्यस्य गच्छति दद्यात् प्रवसताम् श्राद्धम् न तत्पथ्यशनम् भवेत् दानसंवनना ह्येते ग्रन्था मेधाविभिः यजस्वदेहि दीक्षस्वतपस्तप्यः स्वसन्त्यजा स नास्ति परमित्येतत्कुरु बुद्धिम् महामते प्रत्यक्षम् यत्तदातिष्ठपरोक्षम् पृष्ठतः कुरु सताम् बुद्धिम् पुरस्कृत्य सर्वलोकनिदर्शिनीम् राज्यं सत्वं निगृह्णीश्व भरतेन प्रसादितः इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे अष्टाधिकशततमः